स्मृत्वा स्मृत्वा पशु पसु दृश प्रेम भार प्रणुन्नः कारुण्येन त्वमपि विवस प्राहिणोरुद्रमहूतम् किञ्चामूष्मै परम सुहृते भक्तवर्यायता असाम् सकल भुवने दुर्लभम् दर्शयिष्या